श्रीमद्भागवतमहापुराणं दसंस्कन्ध असषष्टितमोऽध्यायः श्रीकृष्णरुक्मिणीसंवाद श्रीशोकुवाच कर्हते सुखमासीनं स्वतल्पस्थं जगद्गुरुं पतिं पर्यचरद्भयेस्मि व्यजनेन सखी जनैः यस्त्वे तल्ल्या विश्वं सृजत्यत्यवतीश्वरः स हि जातं ससेतूनां गोपिथाय यदुश्वरः तस्मिन्नन्तर्गृहे राजमुक्तादामविलम्बिनां विराजिते वितानेन दीपैर्मणिमयैरपि मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः प्रविष्टैस्य गोभिश्चन्द्रमशोमलैः पारिजात पारिजातवरामोदवायूनोद्यानशालिनां धूपैरगुरुजैराजन् जालरन्ध्रविनिर्गतैः पयफेननिभे शुभ्रे पर्यङ्के कशिपुत्तमे। उपस्तस्थे सुखासीनं जगतामीश्वरं पतिं वारव्यजनमादाय रत्नदण्डं सखीकरात् तेन विजयति देवी उपासां शक्रईश्वरं सोपाचितं कुणयति मणिनूपुराभ्यां रेजेऽङ्गुलीयबलियव्यजनं नाग्रहस्ता वस्त्रान्तगूढकुजकुङ्कुमशोडहारधासान्नितं बभूति या च परार्घिकाञ्चयाम् ं रूपिणीं श्रियमनन्यगतिं निरीक्ष या लेलयाचितनोरनुरूपरूपा भीतास्मि अन्नलुङ्कुण्डलनिष्कटुङ्कण्ठ वक्त्रोल्लसस्मित्य सुतां हरिरावभासे श्रीभगवानुवाच राजपुत्रेऽस्थिता भूपैर्लोकपालविभूतिभिः महानुभावैः श्रीमद्भिः रूपौदार्य बलोर्जितैः तान् प्राप्तानर्सिनो हेत्वा चैद्यादीन् स्वन् दुर्मदान् दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो विशेषमान् राजभ्यो विभ्रतशुभ्रूसमुद्रं शरणं गतान् बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनिपाशनान् अस्पष्टवर्तमानं वर्तमनां पुंसामलोकपथमीयुषाम् आसिताः पद्मीं शुभ्रो प्राय सीदन्ति योषितः निष्किञ्चन वयं शश्वन् निस्किञ्चन जनप्रियाः तस्मात्प्रायेण्याढ्यां मां भजन्ति सुमध्यमे ययोरात्मसुमं व्यत्तं जन्मैश्वर्याकृतिर्भव तयोर्विवाहो मैत्री च नोत्तमाधमयो कुचे वैदर्भे तद्विज्ञाय त्वया दीर्घसमीक्षया वृथा वयं गुणैर्हीना भिक्षुभि श्लाघिता मुधाम् अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षमं येन त्वमाशिषः सत्या इहामुद्रा तैद्यसाल्वजरासन्धदन्तभक्त्रादयो नृपाः न दिशन्ति वा मोरुक्मि चापि तवाग्रजः तेषां वीर्यमदान्धानां दृप्तानां स्मैनुत्तये आनीतासि मया भद्रे तेजोपरतासताम् उदासीना वयं नूनं न आत्मलब्धास्महेपूर्णां गेहो गेहयो ज्योतिरक्रिया श्रीशुकुवाच एतावदुक्त्वा भगवानात्मानं वल्लभामिव मन्यमानम् अविश्लेषां तद्दर्पज्ञ उपारमत इति त्रिलोके सपते सपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् आश्रुत्यभीतासिद्धातवेपथोश्चिन्तां दुरन्तां रुदति जगामः पदा सुजातेन न कारुणश्रिया भुवं लिखन्त्यसृभिरञ्जनासितये आसीञ्च ते कुङ्कुमरूप स्तिनौ तस्थावधो मौघ्यति तस्या सुदुःखभयशो कविनश्च बुद्धे हस्ता छलथन् द्वलयतो व्यजनं पपात देहस्य विक्लवधिय सहसैव मुय्यन् रम्भेव वायुवेता प्रविकिर्य केशान् तद्दृष्ट्वा भगवान् कृष्णप्रिया या प्रेमबन्धनम् हास्य प्रौढीं जानन्त्या करुणशोऽन्वकम्पत पर्यङ्कादवरूषासु तामुत्थाप्य चतुर्भुजः केशान् समुह्य तद्वक्तं प्रामृजन् पद्मपालिनां प्रविद्याश्रुकले नेत्रेऽस्तिनौचोपहतौ शुचाम् आश्लिष्य बाहुना राजन्ननन्यं विषयां शतिम् सान्त्वयामास कृपया कृपणां प्रभूम् आस्य प्रौढे भ्रमचित्तं ताम् अत दर्हां सतां गते श्रीभगवानुवाच मा मा वैदर्भसूयेथा जाने त्वां मद्मरायणां त्वद्वच श्रोतुकामेन चरितं चरितमंगरे। मुखं च प्रेमसंरभस्फुरताधर्मीक्षितुम् कटाक्षे पारुपाणाङ्गं सुन्दरं भ्रुकुटीतटम् अयं हि परमो लाभो गृहेषु गृहमेधिनां जन्नमैर्णीयते याम प्रिया